पादुका सहस्रम पद्धति तटि चिंत्रप्धति अतिषा सर्वचि प्रपद्ये मणिपादुका विचिजगदाधारो विष्णु प्रतिष्ठु पादुके चि चिरा युगक्रमभुवो वर्णान् युगपद्वहसे स्वयं सुरा सुरार्चिता धन्या तुङ्गमङ्गलपालिका चरा चरार्चिदा मान्या रङ्गपुङ्गवपादुकापत्मेव मङ्गलसरित् पारं दुरितक्षेपिका भूयात्पादुका रङ्गभूपतेः अनन्यशरणस्येदुन्नक्लेशसागरे शरणं चरणत्राणं रङ्गनाथस्य संश्रये प्रतिभायाः परं तत्त्वं बिभ्रदि पद्मलोचनम् पश्चिमायामवस्थायां पादुके मुख्यदो मम यामश्रयदियां धत्ते येन यात्याय याचया यास्यमानाय यैवान्या सा मामवधुपादुका चर्या प्रायश्चित्तेष्वनुत्तमा निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा रामपादगदाभासा सा भादा गत कादुपानञ्च का बाठा चाड गाधा भानाय बाढ़ी छाड़ुछे गाधाभानायुखे सधौषिच्चूा वृणोशिहरिपादुक साूपारस्था विभूपस्पार तारपा सकृपा दुष्टिपूरपा रामपादुका कारिका ननयात्राया याज्ञेयास्य भानुभा पादपा सह सिद्धासि यज्ञाय मम साञ्जसा स श्रुतौ दृष्टा पादुका स सलाघवा गदौ सृष्टा स्वादुर्मे सदुपासना काव्याया स्थितमावर्गव्याजयादगमार्गका कामदा जगतस्थित्यैरङ्गपुङ्गवपादुका सुरकार्यकरीदेवी रङ्गधुर्यस्य पादुका कामदा कलितादेशा चरन्ती साधुवर्त्मसु भरताराधितां तारां वन्दे राघवपादुकां भवता पाधितान्तानां वन्द्यां राजीवमेदुरां कादुपास्य सदा लोका का लोदा कृददामका कामदाध्वरिरंसका का, दा, का, का, का, का सारङ्गेशपादुका पापा कूपारपालीपात्रिपादीपादपादपा कृपारूपा जुजपालापा स्वापा मा पा नृपाधिपा स्थिरागसाम् सदाराध्या राध्या विहदा कथामताम् सत्पादुके सरासामा रङ्गराजपदम् नय स्थिदा समय राजपा गदरामादके गवि दूरम् हसां सन्नतादा साध्या पतरा तरा शोकतामचारा कविराज दुरावचा तारा गे राजदे राजम पादुका जया मा पया जया मे दुदुखे वया मखेश काकाश हेमपादुका मम कादुपा पापा कृपापाकोपपादिका पुदपादोदका पादोद्दीपिका कापि पादुका तदा तत्तादितत्तेदा तदधितेदितादि ता तुद तत्तत्तदि तदा तदेतादेतदा तु या या या या, या, या। आया अपरवक्त्रा चुपदिचरणा वनीतदा वनी वनीपथे कृतपरिचरणा वनीपकैर्निगममुखैश्चरणा वनीगदा स्रग्विणी दत्तकेलिं जगत्कल्पना नाडिकारङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा तादृशे गाधिपुत्राध्वरे त्वां विना पादुका पादुका पादुका पादुका पादपादपादपादपादपादपादपादपा पादपादपादपादपादपादपादपा पादपा श्रद्धरा जनिद श्री प्रभासा, साभा साकेदत्रा नवेला जनितदनिजप्राङ्गणश्रीप्रभा सा सा भाप्रश्रीरढव्या नियममयमिव्यापदुच्छेदिला सालादिच्छेदतिक्मा हवरुवह्रीकरस्यामरा सा रामस्याङ्घ्रिमभ्या जति नन तिजस्तूलमुत्रादके सा शार्दूलविक्रीडितम् रम्येवेश्मनि पापराक्षसभिदा स्वासत्तधीनायका नन्दुं कर्मज दुर्मदालसधिया सा हन्दनाधीकृदा सद्वाडभ्रमिकासु तापसतपो विस्रम्भभूयन्द्रिका काचित्स्वैरगमेन केलिसमये कामव्रता पादुका श्रीसंवेदनकर्मकृद्वस्तु तव स्यामृद्धधैर्यस्फुटः श्रीपादावनि विस्तृतासि सुखिनी पादि त्वङ्गेययादायन दिव्यदास्य सान्द्रेड्यभावप्रधेऽस्ता चाच्युत दिव्यदास्यसुमधिः प्राणस्तसिदाधन धृतविलम्बितं कनकपीठनिविष्टतनुस्तदा सुमदिदायिनिजानुभव स्मृदा विधिशिवप्रमुखैरभिवन्दिदा विजयदेर्कुपुङ्गवपादुका स्रग्विणी दीनकोऽपि जनिक्लिष्टभीनोत्सदा रामपादावनिस्वानुभाव स्थिदा यदि मे वश्यमुत्तारभाव तेजसा तेन कुष्टिं गदापालिका। पालिका चारणगीतं धामनिराकृदतामसलोका धातृमुखैर्विनदा निजदासैः पापमशेषमपाकुरुषे मे पादुविभूषिदराखवपादा उपजाति कृपानखत्राद सुभूरदुष्टा मेध्या रुचा पारिषदामभूपा पदावनिस्त्यानसुकैर्नतृप्ता कान्द्याः समेताधिकृता निरोधा उपगीति सारससौख्यसमेदाख्यादा पदपा भुवि स्वात्म्या साहसकार्यवनाशाधीरा वसुदा नवन्यासा उपगीति सान्या वनदा सुवराधीशानावर्यका सहसा ज्ञास्वा विभुपादपदाख्यादा मे सख्यसौ सरसा आर्या तारस्वारतरस्वररसभररासा पदावनीसारा धीरस्वैरचरस्थिरघुपुरवासरधिरामसवा गीति चरमचरञ्जनियन्दुश्चरणावनि दम्बरेतराशौरेः चरमपुरुषार्थचित्रौ चरणावनि दिसि चत्वरेषु सदाम् इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्गडनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुका सहस्रे चिदपद्धदिस्त्रिं शी ॐ